अथाब्रवीत् ततो द्रोणो दुर्योधनमर्षणम् दुःशासनञ्च करणञ्च सर्वानेव च भारतान् अवध्यान् पाण्डवान् प्राहुर्देव पुत्रान् द्विजातयः अहम् वैशरणं प्राप्तान् वर्तमानो यथाबलं। गन्ता सर्वात्मना भक्त्या धार्त राष्ट्रान् स राजकान् नोत्सहेयम् हि बलवत्तरम् धर्मतः पाण्डुपुत्रावैव न गच्छन्ति निर्जिताः ते च द्वादश वर्षाणि वने वत्स्यन्ति पाण्डवाः चरितब्रह्मचर्याश्च क्रोधामर्शवशानुगाः वैरन् निर्यातयिष्यन्ति महद्दुःखाय पाण्डवाः राजन् नृपदः विग्रहे पुत्रार्थमय जद्राजावधाय मम भारत याजोपयाज तपसा पुत्रौ लेभे स पावकात् थिष्टुम्नन्द्रौपदीञ्च वेदी मध्यात् हृष्टद्युम्नस्तु पार्थानाम् ज्यालः सम्बन्धतो मतः पाण्डवानाम् प्रियरतस्तस्मान् माम् भयमाविशत् ज्वालावर्णो देव दत्तो धनुष्मान् कवचीशरी मर्त्यधर्मतया तस्मादव्यमे साध्वसो महान् गतो हि पक्षताम् तेषाम् पार्श्वतः परवीरः रथापि रथ सङ्ख्यायाञ युवा